हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकिरामायणे युद्धकाण्डे पञ्चाशीतितमः सर्गः विभीषण कर्तृकानुरोधेन श्रीरामेण इन्द्रजिद्वधाय लक्ष्मणस्य प्रेषणम् लक्ष्मणस्य निकुम्बिला समीपे गमनम् तस्य तद्वचनं श्रुत्वा राघवे घव शोककर्चितः नोपधारयते व्यक्तम् यदुक्तम् तेन रक्षसाय ततो धैर्यमवैष्टभ्य रामपरपुरञ्जय हे विभीषणमुपासीनम् उवाच कपि सन्निधौ नैरृताधिपते वाक्यं यदुक्तम् ते विभीषण भूयस्तत् श्रोतुमिच्छामि ग्रूही यत्ते विवक्षितम् राघवस्य वच श्रुत्वा वाक्यं वाक्यविचारदः यत्तत् पुनरिदं वाक्यम् बभाषेथ विभीषणः यथाज्ञप्तं महाबाहु त्वया गुल्मनिवेशनम् तत्तथानुष्ठितं वीर तद्वाक्यसमनन्तरम् तान्यनेकानि सर्वाणि विभक्तानि समन्ततः विन्यस्तायूथपाशैव यथा न्यायम् विभाग भूयस्तु मम विज्ञाप्यम् स शृणुष्व महाप्रभो त्वय्यकारण सन्तप्ते सन्तप्त हृदया वयम् त्यज राजन्निमम् शोकम् मिथ्या वीर शत्रुष विवर्धि उद्यम क्रियता यदि हतव्याचर रघु नंदन वक्षता शा सौ बल न महतावृत निकुंभलाया सं्रात हन्तुं रावणि माहवे धनुर्मण्डल निर्वृप्तये आशीविषविशोपमये वीश शरैर्हन्तुं हे श्वासो रावणीं समितिञ्जय तेन वीरेण तपसा वरदाना स्वयं भुवः अत्र ब्रह्म शिरप्राप्तं कामगाचतुरङ्गमः ए स एष किल सैन्येन प्राप्तः किल निकुम्बिलं यदुत्तिष्ठेत् कृतं कर्म हतान् सर्वाञ्च विद्धिनः निकुम्बिलां सम्प्राप्तम् अकृताग्निं च यो रिपुः तं मातुतायिनम् हन्यात् इन्द्रशत्रो स देवद वरो धत्तो महाबाहुः सर्वलोकेश्वरेण वै इत्येवं भीतो राजन् वधस्तस्य एष धीमतः वधायेन्द्र जितो राम सन्दिशस्व महाबलम् हठे तस्मिन् हतं विद्धि रावणं च सुरगणम् रामो वाक्यमथा ब्रवी रौद्रस्य मायां सत्यपराक्रम त हि ब्रह्मस्त्रविज्ञो महामायो महाबल करोत्य संन्यान् सङ्ग्रामे देवान् स वरुणानपि तस्यान्तरिक्षे चरतः शरथस्य महायशः न गति वीर सूर्य सेवाभ्रसंप्लवे राघवस्तु रिपो वी या वीर्यं दुरात्मनः लक्ष्मणं कीर्तिसम्पन्नम् इदं वचनमब्रवीत् यद्वा नरेन्द्रस्य बलं तेन सर्वेण संवृतः प्रमुखै चैव यूथपैः सह लक्ष्मणः जाम्बवेन वृक्षपतिना सहसैन्येन संवृतः जहितं राक्षसुतम् मायाबरलः समन्वितम् अयं त्वां सचिवैः सार्धम् महात्मा रजनीचरः अभिज्ञस्तस्य मायानां पृष्ठतो नु गमिष्यति राघवस्य वच श्रुत्वा लक्ष्मणः स विभीषणः जगराह कार्मुक श्रेष्ठम् स शरी वाम चापभृत् रामापादावुपस्पृश्य दृष्ट्वा सौमित्रिरब्रवीत् अद्य मत्कार्मकोन्मुक्ता रुद्रस्य शरीरं माम क्षरः महाचाप गुणच्युतः एवम् उक्त्वा तु वचनं द्युतिमान् ध्रातुरग्रतः स रावणी वधाकाङ्क्षी लक्ष्मणस्वरितं ययो स्वभिवाद्य गुरुपादो कृत्वा चाप्युपदक्षिणम् निकुम्भिलामभिव्ययो चैत्यं रावणी पालितम् विभीषणेन सहितो राजपुत्र प्रतापवान् कुत स्वस्य यरो भ्राता लक्ष्मणः त्वरितो ययो वानराणां सहस्रयस्तु हनुमान् बहुभिभूतः विभीषण च सा मात्यो लक्ष्मणं त्वरितं ययो महता हरिसैन्येन सवेगमभि संवृतः वृक्ष राज बलं चैव ददर्श पथि विष्ठितं स गत्वा दूरमध्वानं सौमित्रिमित्रनन्दनः राक्षसेन्द्र बलं दूरात् अपश्च व्यूहमाश्रितम् सम्प्राप्य धनुष्पाणि मायायोगमरिन्दमः तस्त्वब्रह्मविधानेन विजेतुं रघुनन्दनः विभीषणेन सहितो राजपुत्र प्रतापवान् अङ्गदेन च वीरेण तथा नीलसुतेन च विविधमम विविधमम्लश्च भास्वरं तत् ध्वजगहनं गहनम् आरथय च प्रतिभयतमम प्रमेय वेगम् तिभिरमिव द्विषताम्बलं विवेच इत्यार्थे श्रीमद् रामायणे वाल्मीकि आधिकारे युद्धकाण्डे पञ्चाशीतितमसर्गे श्री सीता रामचन्द्रार्पणमस्तु